पितेवहि नृपोऽस्माकमभूच्छान्तनवः पुरा विचित्रवीर्यो राजर्षिः पाण्डुश्चकुरुनन्दनः स तस्मिन् पुरुषव्याघ्रे देवभावं गते सति राजपुत्राणि वयमेतदनिच्छन्तः सर्प एव गच्छामो यत्र गन्ता युधिष्ठिरः तांस्तथावादिनः पौरान् दुःखकर्षितः उवाचमनसाध्यात्वा धर्मराजो युधिष्ठिरः पितामान्यो गुरुः श्रेष्ठो यदा ह पृथिवीपतिः अशङ्कमानैस्तत्कार्यमस्माभिरितिनोव्रतं भवन्तः सुहृदोऽस्माकमस्मान् कृत्वा प्रदक्षिणं प्रतिनन्द्य तथाशीर्भिः निवर्तध्वं यथा गृहं यदा तु कार्यमस्माकं का भवद्भिरुपत्स्यते तदा करिष्यथा अस्माकं प्रियाणि च हितानि च एवमुक्तास्तदा बोधयन् पाण्डवश्रेष्ठमिदम् वचनमब्रवीत् प्राज्ञः प्राज्ञः प्रलापज्ञः प्रलापज्ञमिदम् वचः प्राज्ञम् प्राज्ञः प्रलापज्ञः प्रलापज्ञम् वचोऽब्रवीत्